श्रीमद्भागवत्महापुराणं दशं स्कन्ध अथैकाशीतितमोऽध्यायः इति तञ्चेतयन्नन्तः प्राप्तो निजगृहान्तिकं सूर्यानलेन्दुशङ्कासैर्विमानैः सर्वतो वृतं विचित्रोपवनोद्यानैः कुयद्विजकुलाकुलैः प्रोत्फुल्ल्य कुदाम्भोज कल्लारोद्बलवारिभिः ज्युष्टं स्वलङ्कृते पुम्भिः स्त्रिभिश्च हरिणाक्षिभिः किमिदं कस्य वा स्थानं कथं तदिदमित्यभूत् देवं मीमांसमानं तं नरा नार्यो मरप्रभाः प्रत्य महाभागं गीतवाद्येन भूयसा पतिमागतमाकर्ण पत्न्योद्धर्षातिसम्भ्रमा निश्चक्रां गृहात्तुर्णं रूपिणी श्रीश्रीरिवालयान् पतिव्रता पतिं दृष्ट्वा प्रेमोत्कण्ठाशुलोचनां मेलिताख्य न मद्बुद्ध्या मनसा परिसरस्वते पत्नीं वीक्ष्य विस्फुरन्तीं देवीं वैमानकीमिव दासीनां निष्कण्ठीनां मध्ये भ्रान्तिं सविस्मितः प्रीतस्वयं तया युक्तप्रविष्टो निजमन्दिरं मणिस्तम्भशतोपेतं महेन्द्रभवनं यथा पयफेन निभासयाद्दान्तारुक्मपरिच्छदाः पर्यङ्का हेमदण्डानि चामरव्यजनानि च आसनानि च हेमानि मृदुपस्तरणानि च मुक्ता नाम विलम्बिनि वितानानि दमन्ति च स्वक्षस्फटिकं महामारक महामारकतेषु च रत्नदीपा भ्राजमाना ललना रत्नसंयुताः विलोक्य ब्राह्मणस्तत्र समृद्धि सर्वसम्पदाम् तर्कयामास निर्व्यग्रः स्वसमृद्धिमहेतु किं नूनं वतैतन्मम दुर्भगस्य सस्वद्दरिद्रस्य समृद्धिहेतु नहाभिभूतेरवलोकतोऽन्यो नैवोपपद्येते यदुत्तमस्य नन्वब्रुवाणो दिशते समक्षं जाचिष्णवे भूर्यपि पर्जन्यवत्तत् स्वयं मीक्षमाणो दासार्हकाणां ऋषभसखावे किञ्चित् करोत्योर्वपि यन् स्वदत्तं सहद्गतं फल्वपि भूरिकारी नयोपनीतां पृथुकैकमुष्टिं प्रत्यग्रहीत प्रतियुतो महात्मा तस्यैव मे सौहृदसख्यमैत्री दास्यं पुनर्जन्मनि जन्मनि स्यात् महानुभावेन गुणालेन विसज्वरस्तपुरसप्रसङ्गः भक्ताय चित्रा भगवान् हि सम्पदो राज्यं विभूतेन समर्शयद्यजः अधीर्घबोधाय विचक्षण स्वयं पश्यन्निपातं धनीनां मदोद्भवम् इत्थं व्यवसितो बुद्ध्या भक्तोऽतीवचनार्चने विश्याञ्जाय यातिक्षण् बुभुजेनातिलम्पटः तस्य वै देवदेवश्च हरे यज्ञपते प्रभो ब्राह्मणा प्रभो दैवं न विद्यते परम् एवं सविद्रो भगवत्सृहृद्दतां दृष्ट्वा स्वभृत्यैरजितं पराजितं तद्ध्यानवेगोद्ग्रसितात्मबन्धन् तस्मात्तद्धा बलेभे चिरितसतां गतिम् एतद्ब्रह्मण्यदेवस्य श्रुत्वा ब्रह्मण्ययुतां नरः दब्धभावो भगवती कर्मबन्धाद् विमुच्यते इति श्रीमद्भागुते महापुराणे पारमहिंसां शयितायां तथ निस्कन्धे उत्रार्धे पृथुकोपाख्यानं नामैकाशीतितमोऽध्यायः